मुद्गलपुराणं खण्डं हो गजाननचरितं विष्णुपराजयम् श्रीगणेशाय नमः मुद्गल उवाच इन्द्रसुरगणैः सार्धं बृहस्पतिपुरोगमः वैकुण्ठे विष्णुमानम्य गत्वा तुष्टावतं स्तवैः ततस्तुष्टो हरिप्राह महेन्द्रं मान्यभावदः स्थीयदां दैवतैः सर्वैः किं कार्यं समुपस्थितं त्यक्त्वा मरावधिं ताद किमर्धं चागदो भवान स्त्रिया हीनः पदा देवैर्वदुःखं महाद्भुतम् इन्द्र उवाच किं वदामि जगत्पाल सर्वज्ञं त्वाम् महामदे तथापि शृणुवृत्तान्तं शोकदं दैवकारितं लोभासुरश्च शैवेन वरेण बलदर्पितः दानवेन्द्रैर्महाबाहुर्यो त्वं स ्यागदोऽधुना गुरुणा बोधिता सर्वे वयं प्राप्ता जनार्दन त्यक्त्वा राज्यादिकं सर्वं विचारं कुरु सर्वथा दैत्योमरावदीसंस्थो देवस्थानानि माधव प्रददाति च दैत्येभ्यः स्वर्गराज्यं करोति सः त्वं पालकश्रुतौ प्रोक्तस्तस्माच्चरणमागतान् रक्षलोभासुरं हत्वा देवानामीश्वरो भवान् तेषां तद्वचनं श्रुत्वा विष्णुकोपसमन्वितः जगादेवराजं तं महाबाहुर्विचक्षणः श्रीहरिरुवाच हनिष्यामि महादैत्यं लोभं दानवसंयुधं मा कुरुष्व वृथा कुरुराज्यं मयार्पिदं एवमुक्त्वा महेन्द्रं स देवेन्द्रैः सह माधवः वेगेनारुह्यगरुडं ययौ तामरावदीम् समागतम् महाविष्णुम् महासैन्यसमाकुलम् ज्ञात्वा दूतमुखात् सर्वे दानवा सज्जकायययुः लोभक्रोधसमाविष्ट आयौ योद्धुमादृदः रथारूढस्वयं साक्षान्मृत्युरूपोऽयमुच्यते लोभं दृष्ट्वा सुरा सर्वे भयभेदात्समः महापायं महावीर्यं कालकालं प्रदुद्रुवुः पलतस्थान् समाश्वास्य युद्धोद्यदो भवद तेन सार्धं ययुः सर्वे महेन्द्राद्याश्च दंशिताः समागतं रमानाथं रणभूमौ प्रतापवान् लोभक्रोधसमाविष्टो चोदयत्सोऽसुरांस्तदः पदो युद्धम् समभवद्देवानां दानवैषः तु मूलं शस्त्रसङ्खादैर्मारयन्तः परस्परम् अन्योन्यम् ते जयम् सर्वे दानवास् सुरनायकाः इच्छन्दो नजयं जयं तत्राप्नुवन् दक्ष रक्तौ कैः सम्प्रवृत्ता स्म नदी परमभिदिदा विश्रामम् निशिचक्रुर्न क्रोधा वेश्यैः परस्परम् दिनत्रयं महाकोरं युद्धं दारुणरूपकं सत्रप्रवृत्तं प्रवृत्तम् क्रोधेन युक्ता समाययुः गणाविष्णोश्च सङ्क्रुद्धास्तथा देवेन्द्रमुख्यकः नानास्त्रैर्धानवान् सर्वान् ममर्दुः सर्वतः प्रभो तदोहाहारवम् कृत्वा दानवा भयसंयुताः न यशोदैत्याः पलायन्त समन्तदः तदो हर्षयुधा नादं चक्रुः सुदारुणम् जय विष्णो महाभाग वदन्ति स्म तदो दिक्रोधसंयुक्ता दानवेन्द्राः समाययुः विप्रचित्तिमुखास्तत्र शरवृष्टिं प्रचक्रिरे तेषाम् बाणैः सुरा सर्वे चिन्नाङ्गा पदिदा मृधे तद्दृष्ट्वा क्रोधयुक्ताश्च देवेन्द्रास्तान् प्रदुद्रुवुः अभवद्वन्द्वयुद्धं च नियतम् ज्योमहर्षणम् तेषाम् मध्येध किञ्चित् कथयामि समासदः इन्द्रेण युयुधे तत्र गजा सुरःप्रदापवान् अग्निना च तारो वायुना विप्रचित्तिकः वरुणेन ययौ तत्र बलिक्रोधसमन्वितः कुबेरेण प्रहेतिश्च मदनेन जहेदिकः सूर्येण युयुधे क्रोधात् सप्रदाभीनरान्तकः देवान्तको विष्णुना च क्रोधयुक्तः समाययौ जृम्भः सोमेन दैत्येशो युयूधे बलसंयुधः यमेनैव महाबाहुर्वृत्रश्च युयुधे भृशम् नाना युद्धं, चक्रूर् भव युद्धम चक्रुर्देव्रक दैत्येन्द्र बलगर्विष्ठ वर्णनाय नविरामं नीराम नाना शास्त्रवर्षेण ववृषुस्ते पर दिवसात्र पञ्चैव गतास्तेषां प्रयुध्यतां नाप्राप्यद जयो देवैर्दैत्याैः परमदुर्जयैः ततोधिकोपसंयोक्तः सप्रदापि गजासुरः इन्द्रं सङ्गृह्य चिक्षेप महापर्वतमस्तके मूर्च्छितो देवराजः ततो देवाः पलायिताः एवं कृदाः आहा कृत्वा तदसर्वं देवसैन्यं दिशो दश पपालतन्महाश्चर्यं दृष्ट्वा विष्णुः सुकोपः चक्रं प्रगृह्य चिक्षेपमहाबाहुः सदारुणं दैत्यसैन्ये ततस्तेन हदा दैत्या अनेकशः केषाञ्चिन्मस्तकेष्वेददप तद्दारुणं महद दा। चिच्छेद हस्तपादादीन् दानवानामितस्तदः तदो दैत्येन्द्रका सर्वे आययुस्ते जनार्दनं शस्त्रास्त्रैः सर्वदो दुष्टा मारया मा सुरेव तं नारायणस्तधः कोप संयुक्तो दिप्रदापवान् गजासुरं स पिव्याध बाणैर्दशभिरावृतम् मूर्छिदं चकारासौ ततो देवान्तकं हरिः सप्तभिस्ताडयामास पादयामास भूदले। भूतले एवं सर्वान् महाविष्णुः दानवेन्द्रान् सुदारुणान् विव्याधमूर्छिदांश्चक्रे शरवर्षैः तदो तदोहारवं कृत्वा फलत्तत्सैन्यमुल्बणं दानवानां भयार्तं वै दशदिक्षु विशेषतः ततो लोभसमायाधक्रोधयुक्तो जनार्दनं जगादवचनं सोऽपि मोहयुक्तो महासुरः लोभ उवाच सम्यक्कृतं त्वया विष्णो येन दर्शनं गदः अधुना त्वां न मुञ्जामि जीवयुक्तं कदाचन नामरूपात्मकेभ्यश्च मरणं नैवमे भवेद ज्ञात्वा किमर्थमायादो ज्ञानहीनो यथा नरः गदां गृहीत्वैव मुक्त्वा ताडयामास पपाद पपादमूर्च्छया विष्णुस्ततः तदसैन्यं व्यमर्दयद मुहूर्तमात्रकालेन सावधानो बभूवः पपालदेवराजै सत्यक्त्वा सङ्ग्राममण्डलं प्रहश्य दानवान् सर्वान् साव लोभा सुरः प्रसन्नात्मा तैः सार्धं स्वपुरे गमद स्तुतो बन्दिजनैस्तेभ्यो दत्त्वा दानानि हर्षिदः इन्द्रासने समासीनो रेजे दानवसत्तमः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः ॐ